के पृथक् पृथक् सघो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 पार्थ पश्येतान् समवेतान् कुरूनि तत्रा पार्थ पितृनथ पिता महान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् सता श्वशुरान् योरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्थितान् कृपया परया सम्बन्धिनस्तथा एतान्नहन्तुमिच्छामि न तोऽपि मधुसूदन अपि त्रैलोक्यराजस्य एत किन्तु महीकृते निहत्य धार्तराष्ट्रान्न पि yeah, yeah. yeah. Turn off. लक्नु श्रीमद्भगवद्गीता सपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः